नापति आरवत् दशकम् मण्णयं तव अयि देव पुरा किल त्वयि स्वयभूतानसये स्तनन्दये परिजृम्बणतो पुनरप्यथबालकै समम् निरते जगत्पते फलसञ्चयवञ्चनकृदा तव मृद्भोजनमूषुरर्भगा अयिते प्रलयावदौ मृदुपाशनतो रुजा भवेदिति किमुमृत् सा बतवत् स भक्षिता इदि मातृकिरम् चिरम् विभो वितताम् त्वम् प्रति जज्ञिषेहसन् अयिते व्यदारय अभिमृल्लवदर्शनोत्सुकाम् जननीम् ताम् बकुतर्पयन्निव प्रदिवी निखिलाम् न केवलम् भुवनान्यप्यकिलान्यदीदृश गु क्वचित् वनमम् बुते क्वचित् क्वचिदब्रम् गु मनुजादनुजा क्वचित् सुरा ददृशे किम् न तदा त्वदानने कलशाम् बुदिशायिनम् पुनः पर वैकुण्ठपदातिवासिनम् स्वपुरश्च निजार्बकात्मकम् कतिदा त्वाम् न विकसत् भुवने मुकोदरे ननुभूयोऽपि तथा विधानन अनया स्फुटमीक्षितो भवान् अनवस्ताम् जगताम् पदातनोत् द्रुतद्वतियम् तदा क्षणम् जननीम् ताम् प्रणये न स्तनमम् बदिशेत्युपासजन् भगवन् अद्भुतबाल पाहि माम् हरे कृष्ण हरे कृष्ण हरे कृष्ण हरे हरे हरे राम हरे राम हरे राम हरे हरे